अथर्वेदे षष्ठाष्टके षष्ठोऽध्यायः ओ आप्रद्रवपरावतो रावतश्च वृत्रहन् इशामन्दस्मादुते रम्बरायमन्यवे भुवत्त इन्द्रसंहृदे आत्मशत्रवागहिन्यो उक्थानि च हूयसे उपमेरो ओचने दिवः तुभ्यायमद्रिभिः सुतो गोभिः श्रीतोमदायकम् वसोम इन्द्रहूयते इन्द्रश्रुधिसु मेहवमस्मे सुतस्य गोमतः विप्रीतिम् तृप्तिमश्नुहि य इन्दतमसेष्वा सोमश्चमूषुते सुतः पिबेदस्य त्वमीशिषे यो अप्सु चन्द्रमा इव सोमश्चमूषुतदृशे पिबेदस्यत्तमीशिषे यन्ते एष्ये नः पदा भरत निरोरधांस्य स्मृतम् पिबेदस्य त्वमीशिषे ओ महत्तदा वृणीमहे भयम् कृष्णाभस्मभ्यमूतये तेनः सन्तुलुजः सदा वरुणो मित्रो अर्यमा वृथा षष्ठप्रचयेतसः अतिनो विष्पिता पुरुनोभिरपो नपर्षथ यूयमृतस्य रथ्यः वामन्नोः अस्पर्यवन् वामम् वरुणशंस्यम् वामम् वामस्य हि प्रचेतस ईशानासोरिषादसः नेमा आदित्या अघस्य यत् वयमिद्वः सुदानवः क्षियन्तो जान्तो अध्वन्ना देवा आवृथाय होमहे अधिन इन्द्रैषाम् विष्णोः सदात्यानाम् इता मरुतो अश्विना प्रभ्राः तृत्तम् सुदा नवोधद्विदा मातुर्गर्भे भरामहे योऽयम् हिष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः अथाचिद्व उत ब्रुवे रेष्ठम् वो अतिथिम् स्तुषे मित्रमिव प्रियम् अग्निम् रथम् नवेद्यम् कविमिव प्रचेत संयम् देवासो अथ द्विता ष्ठदाशु शोराष्ट्वा हि शृणुधी गिराः रक्षाः तोकमुदत्मनाः कया आथे अग्ने अङ्गिरऊर्जो न पादुपस्तुतिम् वरा आयदेव मन्यवे दाशे मकस्य मनसा यद्दस्य सहसो यः कदुवोच इदन्नमाः अथा त्वम् हि नस्करो विश्वा अस्मभ्यम् सुक्षितेः वाजद्रविणसो गिराः कस्य नूनम् परेण सोऽधियो जिन्मसि दम्पते गोषा आदायस्य धे गिराः तम् मर्जयन्त सुक्रतुम् ेति क्षेमे एभिः साधुभिर्न किर्यम् घन्ति हन्ति यः अर्ग्ने सुवीर एधते आ मे हवन्नासत्याश्विना गच्छतम् युवम् मध्वः सोमस्य भीतये इवम् मे स्तोमममश्विनेवम् मे हे शृणुतम् हवम् मध्वः सोमस्य भीतये अयम् वाङ्कृष्णो अश्विना हवते वाजिनीवसु मध्वः सोमस्य पीतये शृणुतञ्जितुरहवङ्कृष्णस्यस्तु मतो नरा मध्वः सोमस्य पीतये छर्दिर्यम् तमदाभ्यम् विप्रायस्तु पते नरा मध्वः सोमस्य पीतये गच्छतम् दाशुषो गृहमित्थास्तु मतो अश्विना मध्वः युञ्जाथाम्रासभं रथे एवीड्वङ्गे वृषण्वसु मध्वः सोमस्य पीतये त्रिवन्धुरेण त्रिव्रतारथे नायातमश्विना मध्वः सोमस्य पीतये नो मे गिरो ओ नासत्याश्विनाप्रावतम् मध्वः सोमस्य पीतये उभाहितस्यापिषजा आमयोभुगोभा दक्षस्य वचसो बभूवधूः तावाम् विश्वको हवते तनु कृथे मा नो वियौष्टम् सख्यामुमोचतम् कथानूरम्बाम् विमना उपस्तवद्युवन्धिरम् ददथुर्वस्य इष्टये तावाम् विश्वकोहवते तनु कृथे युवम् हिष्माः पुरुभुजे ममे एधतुम् विष्माप्ते एतदथुर्वस्य इष्टये तावाम् विश्वको हवते तनुकृते मानो वियौष्टम् सख्यामुमोचतम् उदत्यम् वेदन्धनसाम्रजीषिणम् दूरे चित्सन्तमवसे हवामहे यस्य स्वादिष्ठासु मतिः पितृर्यथामानोऽपि यौष्टम् सख्यामुमोचतम् ऋतेन देवः सविताशमायत ऋतस्य शृङ्गमुर्वियापि वप्रथे ऋतम् सा आसाहमहिजित्प्रतन्यतो मानोऽष्टम् सख्यामुमोदतम् जुम्नीवां स्तोमोह अश्विनाग्रिविर्नसेक आगतम् मध्वः सुतस्य स दिविप्रियो नरा पातम् गौरा विवेरिणे विपतम् कर्मम् मधुमन्तमश्विना बर्हिष्येतम् नरा मन्दसानामनुषो दुरोण आनिपा आतम् वेदसापयाः आवाम् विश्वा आभिरोतिभिः प्रियमे एधा अवोषत ताभक्तिर्या आतमुपवृत्तबर्हिषो दृष्टम् यद्दन्ति वृष्टिषो विबतम् सोमं आ नूनैयातमश्विनाश्वेभिः प्रि तत्सुभिः दस्रा हिरण्यवर्तने शुभस्तरे पातम सोममृता वृथा महिदम् हिहवामरे विपन्यभो विप्राः सोपायसातये तावल्बो दस्रा पुहृतम् ससाधियाश्विनाश्विष्ट्यागरम् तम्बो दस्तमृतेशहम्बसो अभिवत्सन्नस्पसरे सुखेन परीन्द्रम् गीर्भिर्नवामहे दुःखम् सुदानन्दविषेभिरावृतम् गिरिन्न पुरुहोदसम् क्षुमन्तम् वाजम् शतिनम् सहस्रिणम् भक्षो गोमन्तमीमहे नर्ता आबृहन्तो अद्रजोपरन्त इन्द्रभीडवाः यद्यित्ससि स्तुमते मावते वसुन किष्ठदा मिनाति ते योद्धासि कृत्वाशव सोदतं सना विश्वादाताभिमद्मना आत्वायमर्क ऊतये वर्तति यङ्गोतमा अजीजनन्न बहिरिक्ष ओजसाधिवो अन्तेभ्यः परि न त्वा आयुव्याचरद इन्द्रपार्थिवमनुःसथाम्बवक्षिथ न किह्परिष्टर्मघवन्मघस्य ते यद्धाशुषे दशस्यसि अस्माकम् बोध्युतथस्य चोदितामम् हिष्ठोपायसातजे बृहदिन्द्रायगाय तमरुतो वृत्रहन्तमम् येन ज्योतिरजनयन्द्रतावृथो देवम् देवायजागृवि अपा आथमदभिषस्तीरस्थियाथेन्द्रो ओद्युम््याभवत् देवास्त इन्द्रसख्याय ये मिले बृहद्भानो मरुद्गण प्रभ इन्द्राय बृहते मरुतो ब्रह्मार्चत वृत्रम् हरति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा अभिप्रभरथशतादृशन्मनश्रपश्चित्ते असद्बृहत् हर्षन्तापोजपसामि मातरोहनोः वृत्रञ्जया स्वाह यज्जायथा अपूर्व्यमघवन्वृत्रहत्याहाय तत्पृथिवीमप्रथयस्तदस्तघ्ना उतद्या तत्ते यज्ञो अजाय तदर्क उत स्कृतिः यज्जातं यज्जातम् यज्जन्तम् आमासु पक्वमैरय आसूर्यम् रोहयो दिवि घर्मन्नसामन्द्रपतासु रक्तिभर्जुष्टङ्गिर्वणसे बृहत् आ नो विश्वा असुहव्य इन्द्रः समत्सु भूषत् उप ब्रह्मा आणि समनानि वृत्रहा परमज्या रचि ईषमः त्वम् दाता प्रथमो राधसा मस्यसि सत्यजी ईशानकृत तु विद्युम्नस्य युज्यावृणीमहे पुत्रस्य शपसो महः ब्रह्मात इन्द्रगिर्वणः क्रियन्ते अनतिद्भुता इमायुषस्वहरि यश्वयो जनेन्द्रयाते अमन्महे त्वम् हि सत्यो भगवन्ननानतो वृत्रा भूरिम् गृञ्जसे सत्त्वं शविष्ठवज्रहस्तदासुषेर्वाञ्चम् रजिमाकृधि त्वमिन्द्रयशा असृशीशीषवसस्पते त्वम् वृत्राणि हंस्य प्रतेऽन्ये कैरनुत्ताचर्षणीधृता तमुत्ता नूनमसुरप्रदेतसम्प्राधो भागमिवेमहे महे मकृतिः शरणाद इन्द्रप्रदे सुम्नानोः अश्नवन् कन्या आवारवायति सोममपि श्रुता विदत् अस्तम्भरन्त्यब्रवीदिन्द्रायशुनवयित्वा शक्रायशुनवैत्त्वा असौ य एष वीरको गृहम् गृहम् विचाकषत इमञ्जम्भसुतम् पिबधानावन्तम् करम्भिनमपूपवन्तमुखिनम् आचलत्वाचिकित्सामोधि चलत्वा नेमसि शनैरिवशनकैरिवेन्द्रारेन्द्रोपरिश्रव कुविच्छकत् कुवित्करत् कुवित कुविन्दो वस्य सस्करत् कुवित्पतिद्विषो यतीरिन्द्रेण इमानित्रीणि विष्टपादानीन्द्रविरोहय शिरस्ततस्योर्वरामादिदम् मौगोदरे असौ चयान उर्वरादिनान्तम्बा अम् मम अथो ततस्य यच्छिरः सर्वातारो मशाकृति खे रथस्य खेन सख्ये युगस्य शतक्रतो अपारामिन्द्र त्रिष्पोप्यकृणोः सूर्यत्तथम् न्तमापो अन्धस इन्द्रमभिप्रगायत विश्वासाहंशतक्रतुम्बम् निष्ठम् चर्षणीनाम् पुरुहूतम् पुरुष्कृतम् गाधान्याहंसनश्रुतम् इन्द्र इति भ्रमेतन इन्द्र इन्द्रोः महानाहन्दातावाजानान् ऋतुः महाम् अभिज्ञायमत् अपादशिप्र्यन्धसः सुदक्षस्य प्रहोषिणः इन्दोरिन्द्रो यवाशिरः तम् बभिप्रार्चतेन्द्रम् सोमस्य पीतये तदिध्यस्य वर्धनम् अस्य पीत्वा मदानाम् देवो देवस्यौजसा विश्वाभिभुवनाभुवत् च्यमुपः सत्रासाहम् विश्वासु गीर्श्वायतम् आच्या वयस्योतये युग्मम् सन्तमसर्वाणम् सोमपामनपच्युतम् नरमवार्यक्रतुम् शिक्षाण इन्द्ररायः पुरुविद्वाङ्गजैषम अवा आनः पार्ये धने अतश्चिदिन्द्रण उपाया आहि शतवाजया सहस्रवाजया अया आमधितोऽधियोर्वद्भिः जये एमपृत्सु वज्रिवः वयमुत्पाशतक्रतो कावो नयमसेष्वा उत्थेषु रणयामसि विश्वाहिमर्त्यत्तरानुकामाशतक्रतो अगन्मवज्रिम्नाशसाः तेषु पुत्रशपसो वृत्रम् कामकातयः िया विढ्ढिपुरन् यस्ते ए नूनम् शतकृतमिन्द्रद्युम्नितमोमदाः तेन नूनम् मदे मदेः यस्ते ए चित्रश्रवस्तमोय इन्द्रवृत्रहन्तमः य ओ जोदातमोमदाः विद्मा हि यस्ते ए अद्रिवस्पा दत्तः सत्यसोमपाः विश्वासुदस्मवृष्टिषु इन्द्रायमद्वने श्रुतम् वरिष्टोभन्तु नो गिराः अर्कमर्चन्तु कारवाः यस्मिन्विश्वा अधिश्रियोरणन्ति सप्तसंसदाः इन्द्रम् श्रुते हवामहे त्रिकद्रुके सुचेतनम् देवासो यज्ञवत्नत परिद्वर्धन्तु नो गिराः आ त्वा आविशन्दिन्दवः किं व्यक्षमहिना वृषम्भक्षम् सोमस्य जागृवे य इन्द्रजठे एषु ते अरन्त इन्द्रभुक्षये सोमो भवतु वृत्रहम् अरन्धामभ्य इन्दवः अरमश्वा आजगायति श्रुरभक्षो अरङ्गवे अरमिन्द्रस्य साम्ने अरम् आसुते शृणः सोमे एष्मिन्द्रभूषसि शक्रदावने क्षिद्रिवस्तान्नक्षन्तनो गिराः अरङ्गमामते भजम् एवाह्यसि वीरयुरेवाशूर उपस्थिरः एवा ते राध्यं वनाः एवा राधिस्तु मेमघविश्वेभिर्धायि धातृभिः अथाचिलिन्द्रमे सचाः मोषु नत्स्वा सुतस्य गोमतः मान इन्द्राभ्या आदिशः सूरो ओ अक्तुष्पायमन् त्वायुजावने मतत् त्वजेदिन्द्रयुजाभयम् प्रतिब्रुवीमहि स्पृधाः त्वमस्माकम् तव स्मसि त्वामिद्धि त्वायवो अनु नोऽनुवतश्चरान् सखा आय इन्द्रकारवाः उद्ध्येदभिश्रुतामघम् वृषभन्नर्याः वशम् अस्ता रमेशि सूर्य न भयो न पतिम् पुरो बिभेदबाह्वो ओजसा अहिम् च वृत्त्रः अवधीत् स न इन्द्रः शिवः अभिसूर्य सर्वम् तदिन्द्रते वशे यद्वा आप्रवृद्धसत्पथे न मरा इति मन्यसे उतो तत्सत्यमित्तम ये सोमाः सः परावति ये अर्वावति सुन्धिरे सर्वांस्ताम् स्ववृषा आवृषभो भुवत् इन्द्रः सदा मने कृत ओदिष्ठः स मते एहितः युम्नीश्लोकी स सोम्यः गिरावज्रोणसंहृतः सबलो अनपच्छितः वपक्षविश्वो अस्त्रुतः दुर्गे चिन्नः सुखम् कृधिकृणान इन्द्रगुरुपणः त्वञ्चमघवन्वशाः यस्य तेनोचितादिशन्न मिलन्ति अदेवो देवो रात्रिगुर्जनाः अधा आ ते अप्रतिष्कृतम् देवी सुष्मम् सपर्यतः उभेषु शि प्ररोदसे त्वमेतदधारयः कृष्णासुरोहिणीषु च परुष्णीषु रुषत्रयाः विरलहेरलक्विशो विश्वे ए देवासो अक्रमुः विदम् नृगस्य ताम् अमाह आदुमेनिपरोभुवद्वृत्रहादिष्टपोंस्यम् अजा आतशत्रुरस्तुतः श्रुतम् वो वृत्रहन्तमम् प्रशब्धम् चर्षणीनाम् आशुषे राधसे महे अया धिया च गम् यया पुरुणामन् बुरुष्टुत यत्सोमेः सोमहाभवः बोधिन्मना इलस्तु नो वृत्रः भूर्याः कजाः स्तोतृभ्याभर कस्य वृषाः सुते सजाः नियुत्वाम् वृषभोरणत् रुत्रा सोमपीतये अभीषुणस्वम् रजिम् वन्दसानः सहस्रिणम् प्रयन्ताबोधिताशुषे पत्नीमन्तः सुता पुनः होत्रा असृक्षतेन्द्रम् वृथा सो अध्वरे अच्छापभृथमोजसा यहत्या समाद्याहरिहिरन्यकेश्या वोढामभिप्रयोहितम् तुभ्यम् सोमा सुता इमे स्तीर्णम् बर्हिरविभावसो स्तोत्रभ्यमिन्द्रमावह आ ते दक्षम् विदोचनादधद्रत्नाविदाशुषे स्तोतृभ्य इन्द्रमर्चत आदे दधामीन्द्रियमुग्धा विश्वा आशतक्रतो स्तोतृभ्य इन्द्रमृडया भद्रम् भद्रम् नभरे समूर्जम् शतक्रतो यलिन्द्रमृळया आसिनः सो विश्वान्याभरसु वितानिशतक्रतो यलिन्द्रमृडया आसिनः यदिन्द्रविलया हासिनः उपनोहरिभिः सुतम् याहि मदानाम् पते उपनोहरिभिः सुतम् विधायो रत्र हन्तमो वित इन्द्रः श्रतक्रतुः उपनोहरिभिः सुतम् त्वम् ह्यरत्रहन्नेषाम् पाता सोमाहा नामसे उपमोहरिभिः सुतम् इन्द्र इषे ददातु नरुभुक्षणभृभुम् रजिम् वाजी ददातु वाजिनम् गोर्धयति मरुताम् श्रवस्युर्माता मखोनां युक्ता वह्ने रथानाम् यस्या आ देवा उपस्थे व्रता विश्वे ए धारयन्ते सूर्यामासा आदृशेकम् तत्सु विश्वे ए अर्य आसदाः मरुतः सोम पीतये अस्ति सोमो अयम् सुतः पिबन्त्यस्य मरुताः उत स्वराजो अश्विना पिबन्ति मित्रो अर्य्यमातनाः भूतस्य वरुणः त्रिषधस्थस्य जावतः उतोऽन्वस्य दोषमा इन्द्रः सुतस्य गोमतः प्रातर्होते एव मत्सति कदत्पिषन्तसूरयः स्थिर अर्षन्दिभूतलक्षसः कद्वो अद्य महानाम् देवानामवो वृणे मनाः आजे दस्मवर्चसाम् आ ये विश्वापार्थिवानिवप्रथम् द्रोचनादिवः मरुतः सोमपीतये चान्नुपूतलक्षसो दिवो मरुतो हुवे अस्य सोमस्य ये विरोदसेतस्तपुर्मरुतोऽहुवे अस्य सोमस्य पीतये चन्नुमारुतम् गणम् गिरिष्ठाम् वृषणम् भुवे अस्य सोमस्य पीतये आत्वा गिरो रथेरिवास्थुः सुतेषु गीर्वणः अवित्त्वा समनोषतेन्द्रवत्सन्न मातराः आत्वा शुक्रा अदुच्यवः सुता स इन्द्रगिर्वणः हितम् पिबासो मम्मदायतमिन्द्रश्येनाभृतम् सुतम् त्वम् हि दशपतेनाम्पती राजा विशामसे श्रुते हवन्तिरश्च इन्द्रयश्वासपर्यते सुवीर्यस्य गोमतो राजस्पोर्द्धिमहामसि इन्द्रयस्तेन वेयसेङ्गिरम् मन्द्रामते जनत चिकित्विन्मनसन्धियम् रत्नाभृतस्य पिप्युषे मुष्टवामयङ्गिरविन्द्रमुक्तानि वा मृधुः पुरोण्यस्य ओंस्याशिषा आसन्तो वनामहे एतोऽन्विन्द्रंस्तवामशुद्धम् शुद्धेन साम्ना शुद्धैरुक्थैर्वारुद्धांसं शुद्ध आशीर्वान्वमत्तु इन्द्रशुद्धो न आग्रहि शुद्धः शुद्धाभिरुतिभिः शुद्धा शुद्धो रजिम् निधा आरय शुद्धो मम मध्ये सौम्यः इन्द्रशुद्धो हिनो रयिम् शुद्धो रत्ना निदाशुषे शुद्धो वृत्राणि दिघ्नसे शुद्धो वाचंसिशासे अस्मास आतिरन्तया ममिन्द्रा आय रक्तपूर्म्याः सुवाचाः अस्मा आपो अमातरः सत्तरः स्थुर्लभ्यस्तरा आयसिन्धवः सु पाराः अतिविद्धा मिथुरेणाचिलस्रात्रिः सप्त सानुसंहिता गिरीणाम् अतद्धेवोऽनमर्त्यस्तुर्याद्यानि प्रवृद्धो वृषभश्चकार इन्द्रस्य वज्र आयसो निमिष्ट इन्द्रस्य बाह्वोर्भोयिष्ठमोजाः शीर्षन्निन्द्रस्य कृतवोनिरेख आसन्निषन्तश्रुत्याः उपाके मन्ये एत्वा यज्ञयै यज्ञियानाम् मन्ये एत्वाच्यवनमच्युताना मन्ये एत्वा सत्त्वनामिन्द्रकेतुम् मन्ये एत्वा वृषभम् कर्षणीना आयद्वज्रम् बाह्वोरिन्द्रधत्से मदच्युतमहयेहन्त वा ओ प्रपर्वता अनवन्तप्रगावः प्रब्रह्माणो अभिनक्षन्द्र इन्द्रम् तमुष्टवा मय इमा जान विश्वा अजातान्यवराण्यस्मात् इन्द्रेण मित्रम् दिधिषेम गीर्भिरुपो नमो भदवृषभम् विषेम वृत्रस्य त्वाश्वसथा दीशमाणा विश्वे ए देवा अजवर्ये सखायः मरुद्भिरिन्न शक्यन्ते ए अश्वथेवा विश्वाः त्रिःषष्टिस्त्वा आमरुतो वावृथा न उस्रा इव राशयो यज्ञिया आसः उपत्वे मह कृधि नो अथा कथेयम् सुष्मन्द एनाहविषा आविधेम तिग्ममायुधम् मरुतामनीकङ्गस्त अनायुधासो असुरा अदेवाश्चक्रेण ताम् अपवपरुजीषिन् महा उग्राय तमसे सुवृत्तिम् प्रेरय शिवतमाय पश्वः गिरुवाहसे गिर इन्द्राय पूर्वे तम्बे पुविदङ्गवेदत् उक्थवाहसे विग्भे मनीषाम् नृणानपारमेरया नदीनाम् निःस्पृशति या तम् विश्रुतस्य दुष्टतरस्य पुविदङ्गवेदत् तद्विड्ढि यत्त इन्द्रोजुजोषत्स्तु सुमसा विवास उपभूषि कर्मारुपण्यः श्रावयावाचविदङ्गवेदत् अपद्रप्सोऽ श्रुमतीमतिष्ठति यानः कृष्णो दशभिः सहस्रैः आपत्तमिन्द्र्यातमम् तमस्नेहितेर्नृमणा अधत्त द्रप्समपश्यम् विशुनेतरन्तमुपः वरे नद्यो अंशुमत्याः नभो न कृष्णमवतस्थिबाम् समिष्यामिवो वृषणो युध्यताजौ अथ द्रप्सोऽश्रुमत्याः उपस्थे धारय त्वन्वन्तिषाणः विशो अदे वीरभ्या आचरन्तिर्बृहस्पतिना युजेन्द्रः ससाहे त्वम् हत्यत्सप्तभ्यो जायमानो शत्रुभ्यो अभवः शत्रुरिन्द्र गूढेद्य वा आपृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणन्धाः त्वम् हत्यदप्रतिमानमोजो वज्रेण वज्रिन्द्रितो जघन्ध त्वम् शुष्णस्या वा तम् हत्यद्वृषभजर्षणीनाम् घनो वृत्राणान्तविशोबभूत त्वम् सिन्धो ऽङ्गसृजस्तभान्तमपो अजयो दासपत्नीः स सुक्रतोरणितायः सुतेष्वनुत्तमम् निर्यो अहे एव देवान य एक इन्द्रियपांसि कर्ता सवृत्रहेन्द्रश्चर्षणे दृत्तम् सुष्ठुत्या हव्यम् भुवेम स प्रावितामघवा नोऽधिभक्ता समाजस्य श्रवस्यश्च दाता सवृत्रहेन्द्ररुभुक्षा सद्योजज्ञानोऽहव्यो बभूव कृण्वन्नपांसिनर्या पुरोणि सोमो न पीतोऽहव्यः सखिभ्यः या इन्द्रभुज आपरः स्तोतारमिन्मघवन्वस्य चत्वे वृत्तपर्हिषः यमिन्द्रदधिषे भागमं व्यजम् यजमाने सुन्मतिदक्षिणापतितस्मिन्धे हिमापणौ य इन्द्रसस्यौ रतोऽनुष्मापपमदे एवयोः स्वै श एवैर्मुमुरत्पोष्यम् यच्छक्रासि पदापति यदर्वापति वृद्रहन् अतस्तागेर् सुताभाङ्भासति यद्वासिलोचने दिवः समुद्रस्याधिविष्टपि यत्पार्थिवे सदने वृत्रहन्तमजदन्तरिच्छ आगहि स नः सोमे एषु सोमपाः सुतेषु मादयस्व राधसा सूदृता आवतेन्द्रराजापरेण सा मान इन्द्रपरावृणग्भवा नः स धमाद्याः तन्न पूती त्वमिन्न आप्यम् मान इन्द्रपरा आवृणक् अस्मे इन्द्रस च आसुते निषदा पीतयेमथो कृते चरित्रे महवन्नवो महदस्मे इन्द्रस नत्वा आदेवास आशत नमर्त्या आसो अद्रिवः विश्वा आजाता निशवसाभिभोरसि नत्वा आदेवास आशत निश्वाः पृतना अभिभूतरन्दरम् सजोस्तचक्षुरिन्द्रम् जधनुष्टराजसे कृत्वा वरिष्ठम् वर आमुरिमुदोग्रमो तिष्ठन्तवसन्तरस्विहम् अवी इमरे भासो अस्वरन्निन्द्रम् सोमस्य पीतजेः स्वर्पलिङ्गजे इन्द्रे धृतौ रतोमन्ति चक्षसा मेषम् विप्रा अभिस्वरा सुधीतयो वो अद्रुहोऽपिकर्णेतरस्मिनः समृक्कभिः अमिन्द्रम् यो सत्रा दधा आनवप्रतिस्फुटम् शवा मिष्ठो गीर्भिराच यज्ञियोपमर्थद्राजे नो विश्वा आ सुपथा आ कृणोतु वज्रे त्वम् पुर इन्द्रचिकिदेनाव्योजसाशभिष्ठचक्रनाशयध्ये त्वद्विश्वा आनि भुवनानि वज्रिञ्जावा आरेजेते पृथिवी च भीषा तन्मरतमिन्द्रशूरचित्रपाक्मपो न वज्रिन्दुरितातिपर्षिभूरि अजान इन्द्रराय आदशस्येर्विश्वप्स्य स्पृहजा यस्य राजन्न इति षष्ठाष्टके षष्ठोऽध्यायः